युद्धकाण्डं सर्गं नयन् श्रीमहादेव उवाच विभीषणवच श्रुत्वा रामो वाक्यमधाब्रवीद जानामि तस्य रौद्रस्य मायां कृष्णां विभीषण सहिब्रह्मास्त्रविच्छूरो मायी च महाबलः जानामि लक्ष्मणस्यापि स्वरूपं मम सेवनम् ज्ञात्वै वासमहं तूष्णीं भविष्यत्कार्यगौरवाद इत्युक्त्वा लक्ष्मणं प्राह रामो ज्ञानवताम्बरः गच्छलक्ष्मणसैन्येन महदा जहिरावणिं हनुमत प्रमुख पैस्सह लक्षण जांबवान्क्षराजों सह सैन्येन सैन्य संवृद् विभीषणश सचिव सह तामी अभिज्ञस्तनावरा सह रामस्य वचनं श्रुत्वा लक्ष्मणः स विभीषणः जग्राहकार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः रामपादाम्बुजं स्पृष्ट्वा हृष्टः अद्य मत्कार्मुकान्मुक्ता शरा निर्भिद्य रावणिं गमिष्यन्ति हि पातालं स्नातुं भोगवती जले एवमुक्त्वा स सौमित्रिः परिक्रम्य प्रणम्यदम् इन्द्रजिन्निधनाकाङ्क्षी ययौ त्वरितविक्रमः हनुमान् पृष्टतोऽन्वगाद विभीषणश्च सहितो मन्त्रिभिस्त्वरिदं व्ययौ जाम्भवत्प्रमुखा वृक्षात् सौमित्रिं त्वरयान्वयुः गत्वा निकुम्भिलादेशं लक्ष्मणो वानरैः सः अपश्यद्बलसङ्खादम् दनुरायम्य धनुरायम्य सौमित्रिर्यत्तो भूद्भूरिविक्रमः अङ्गदेन च वीरेण जाम्बवान् राक्षसाधिपः तदा विभीषणप्राह सौमित्रिं पश्य राक्षसान् यदेतद्राक्षसानीकं मेखश्यामं विलोक्यते अस्यानीकस्य महतो भेदने यत्नवान् भव राक्षसेन्द्रसुतोऽप्यस्मिन् भिन्ने दृश्यो भविष्यति अभिद्रवाशु यावद्वै नैतत्कर्म जही वीर दुरात्मानं, वीरदुरात्म हिंसापरमार विभीषण वचश्रुवा लक्ष्मणशुभल वर्षशरवर्षाक्षद्रसुदं पाषाण पर्वताग्रैश वृक्ष हरियूथ पहा सर्वदो दैत्यां स्तेऽपि वानर योधपान् परश्वैश्चिदैर्बाणैरसिभिर्यष्टितोमरैः निर्जघ्नुर्वानरानीकं तदा शब्दो महान्भूद स संप्रहारस्तुमुलसं जज्ञे हरिरक्षसाम् इन्द्रजित्स्वबलं सर्वमर्ध्यमानं विलोक्य सः निकुम्भिलाञ्च होमं च त्यक्त्वा शीघ्रं विनिर्गदः रथमारुह्य सधनुक्रोधे न स सौमित्रिं युद्धाय रणमूर्धनि सौमित्रे मेघनादोऽहं मया जीवन्न मोक्ष्यसे तत्र दृष्ट्वा पितृव्यं सप्राह निष्ठुरभाषणम् इहैव जातसमृद्धसाक्षाद्भ्राधाता पितुर्मम यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः कथं दृह्यसि पुत्राय पापीयानसि दुर्मतिः इत्युक्त्वा लक्ष्मणं दृष्ट्वा उद्यादायुत उद्यादायुधनिस्त्रिंशे रथे महदि संस्थितः महाप्रमाणमुद्यम्य घोरं विस्फारयन् धनुः अद्य वो मामकाबाणाः प्राणान् पास्यन्ति वानराः ततः शरं दाशरथिस्सन्धाया मित्रकर्षणः ससर्ज राक्षसेन्द्राय क्रुद्धसर्प इव श्वसन् इन्द्रजिद्रक्तनयनो लक्ष्मणं समुदैक्षद चक्राश्शनि समस्पर्शैर्लक्ष्मणेनाहतः शरैः मुहूर्तमभवन्मूढः पुनः प्रत्याहृदेन्द्रियः ददर्शावस्थितं वीरम् वीरो दशरथात्मजं सोऽभिचक्रामसौमित्रीं क्रोधसंरक्तलोचनः शरान्धनुषिसन्धाय लक्ष्मणं चेदमब्रवीद यदि ते प्रथमे युद्धे न दृष्टो मे पराक्रमः अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः इत्युक्त्वा सप्तभिर्बाणैरभिव्याधलक्ष्मणं दशभिश्च हनुमन्दं तीक्ष्णधारैः शरोत्तमैः तदशरशदेनैव सम्प्रयुक्तेन वीर्यवान् क्रोधद्विगुणसंरब्धो निर्विभेदविभीषणं लक्ष्मणोऽपि तथा शत्रुं शरवर्षैरवाकिरत् तस्य बाणैः सुसंविद्धं कवचं काञ्चनप्रभं व्यशीर्यत रथोपस्ते तिलश्यः पतितं भुवि तदशरसहस्रेण सङ्क्रुद्धो रावणात्मजः विभेद समरे वीरं लक्ष्मणं भीमविक्रमम् व्यशीर्यतापतद्दिव्यं कवचं लक्ष्मणस्य च कृतप्रतिकृतान्योन्यं बभूवधुरभिदृतौ अभीक्ष्णं निःश्वसन्तौ तौ युध्येदां तुमुलं पुनः शरसंवृतसर्वाङ्गौ सर्वदो रुधिरोक्षितौ सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः अयुध्येदां महासत्वौ जया जय विवर्जितौ यस्मिन्नन्तरे वीरो लक्ष्मणः पञ्चभिः शरैः रावणे सारथिं साश्वं रथं च समचूर्णयत् चिच्छेदकार्मुकं तस्य दर्शयन् हस्तलाखवं सोऽन्यत्तुकार्मुकं भद्रं। सज्यं चक्रे त्वरान्वितः तच्चापमपि चिच्छेदलक्ष्मणस्त्रिभिराशुगैः तमेव छिन्नधन्वानं विव्याधानेकसायकैः पुनरन्यत्समादाय कार्मुकम् भीमविक्रमः इन्द्रजिल्लक्ष्मणं बाणैशिदैरादित्यसन्निभैः बिभेदवानरान् सर्वान् बाणैरापूरयन् दिशः तद ऐन्द्रं समाधाय लक्ष्मणो रावणिं प्रति सन्धायाकृष्यकर्णान्तं कार्मुकं दृढनिष्ठुरम् उवाच लक्ष्मणो वीरस्मरन् रामपदाम्भुजं धर्मात्मा सत्यसन्धश्च रामो दाशरधिर्यदि त्रिलोक्यामप्रदिद्वन्द्वस्तदेनं जहिरावणिम् इत्युक्त्वा बाणमाकर्णाद्विकृष्य मजिंहं लक्ष्मणः समरे वीरसससर्जेन्द्रजितं प्रति ससर सशिरस्त्राणां श्रीमज्ज्वलितकुण्डलं प्रमध्येन्द्रजिधक्कायात्पादयामास भूतले तधः प्रमुदीर्तयुतम ववर्षु पुष्पर्षा स्तुव मुहुर्मुहु जहर्षशक्रो भगवान्हर्षिकाशे चेवाना शुश्रुव दुंदुभिस्व विमलं गगनं चाशी स्थिराभूद्विश्वधारिणी निहतं रावणीं दृष्ट्वा जयजल्पसमन्वितः गतश्रमः सौमित्रिशङ्खमापूरयद्रणे सिंहनादं तथ शब्दमकरोद्विभुः तेन नादेन संहृष्टा वानराश्च गदश्रमाः वानरेन्द्रैश्च सहितस्तुवद्भिर्हृष्टमानसैः लक्ष्मणः परितुष्टात्मा ददर्शाभेत्य राघवं हनूमद्राक्षसाभ्यां च सहितो विनयान्वितः ववन्दे भ्रातरं रामं ज्येष्ठं नारायणं विभुं त्वत्प्रसादाद्रघुश्रेष्ठ हदो रावणिराघवे श्रुत्वा तल्लक्ष्मणाद्भक्र्यामालिङ्ग्यर्कोत्तमः मूर्धिन्यवख्रायमुदिदस स्नेहमिदमब्रवीद साधु साधुलक्ष्मण तोष्टस्म कर्मते दुष्क मेखनाद सेधने जिदम सर्वरिंदम अहोरात्रिवीर कदचिद्विपा निशपन कृदस्म्य निर्यावण पुत्रशोकान्मया योद्धुं तं हनिष्यामि रावणं मेघनादं हदं श्रुत्वा लक्ष्मणेन महाबलं रावणः पदिदो भूमौ मूर्च्छितः पुनरुद्धितः विललापादिनात्मा पुत्रशोकेन रावणः पुत्रस्य गुणकर्माणि संस्मरन् पर्यदेव सर्वे लोकपाला महर्षयः हदमिन्द्रजितं हा। ज्ञात्वा सुखं स्वप्स्यन्ति निर्भयाः इत्यादि बहुश्यः पुत्रलालसो विललापः ततः परमसंक्रुद्धो रावणो राक्षसाधिपः उवाच राक्षसान् सर्वान्निनाशयिषु राघवे सपुत्रवधसन्तप्तः शूरक्रोधवशङ्गतः संवेक्ष्य रावणो बुद्ध्या हन्तुं प्रदुद्रुवे। खड्गपाणिमधायान्तं क्रुद्धं दृष्ट्वा दशाननं राक्षसी मध्यगासीदा भयशोकाकुला भवद एतस्मिन्नन्तरे तस्य सचिवो बुद्धिमान् शुचिः नाममेधावी। रावणं वाक्यमब्रवीत् ननु नाम दशग्रीव साक्षाद्वैश्रवणानुजः वेदविद्याव्रतस्नादस्वकर्म परिनिष्ठितः अनेकगुणसम्पन्नः कथं स्त्रीवधमिच्छसि अस्म सखिदो युद्धे हत्वा ह्वाम च लक्ष्मण प्राप्त से जानक्रमी स्यवर्तदुरात्मा सुद वचस सुधर्म्यम प्रदिगृह्य रावण गृहम जगामाशु शुचा विमूधी पुनः सभा ज प्रय सुहृद युद्ध्रीमद्यात्मणे उमहशर संवाद युद्धकांडे नवसर्ग ओम